श्रीमद्भागवत् महापुराणं पञ्चम स्कन्धचतुर्दशोऽध्यायः एवं वित्त व्यतिशङ्गविद्धवैरानुबन्धोऽपि पूर्ववासनयामिथ उद्वहत्यथापवहति एतस्मिन् संसाराध्वनि नानाक्लेशोपसर्गबाधित आपन्नाविपन्नो यत्र ह्यस्तमोहभावेतरस्तत्र विसृज्य जातं जातं उपादाय शोचन् मुह्यन् बिभ्यद्विवदन् क्रन्दन्ह्यं संसृष्यन् गायन् नह्यमान साधुवर्जितो नैवावर्ततेऽद्यापि यत् आरब्ध एष नरलोकसार्थोऽयमध्वनपारमुपदिशन्ति यदिदं योगानुशासनं न वा एतदवरुन्धते यन्यां स्तन् दण्डा मुन उपशंशनशीला उपरतात्मानः समुपगच्छन्तीं यदपि दिगि भजां भजिनो यज्ञनो ये वैराजर्ष किं तु परं हृदि सैरन्यस्यामेवममेयमिति कृतवैरानुबन्धायां विसृज्य स्वयमुपसंहृताः कर्मवल्लीमवलम्ब्य तदापदः कथञ्चिन्नरं कालिमुक्ता पुनर् पुनरप्येवम् संसाराध्वनि वर्तमानो दरलोकशासमुपयामि एवमुपरि गतोऽपि तस्येदमुपं गायन्ति आर्षभस्ये हरा जरसे मनसापि महात्मननानुवर्त्मायसि रूपं नृपो नक्षिकेवं गरुद्मतः यो दुश्चजान्दारसुतार सुहृदाद्यं हृदि स्पृश जहौ युवैवं बलवद्दुत्तमश्लोकलारसं यो दुश्चजाञ्चित् सुतस्वजनार्थदारान् प्राप्सां श्रियं सरोवरैः सदयावलोकां नैछद्यनिपन्तदुचितं महतां मधुदे सेवानुरक्तमनसामभवोऽपि फल्गो यज्ञाय धर्मपतये विधिनेपुणाय योगाय सांखे साङ्ख्यशिरसे प्रकृतीश्वराय नारायणाय हरये नम इत्युदारम् हास्यन्मृगत्वमपि यं समुदाजहार य इदं भागवतसभाजितावदात् गुणकर्मणो राजर्षे भरतस्यानुचरितं तस्य न मानुष्यमायुष्यं धन्यम् यशस्यं स्वर्गापवर्ग्यं वानुशृणोति आख्यास्यति अभिनन्दते च सर्वा एवासिष आत्मन आशास्तेन काञ्चन परतिते इति ते श्रीमद्भागवते महापुराणे परम्पर हंसां चयितायां पञ्चमस्कन्दे भरतो वाख्यादे पारोख्यविव्रणं नाम चतुर्दशोऽध्यायः